हरि ओं श्रीजगदम्बिकायै नमः अथ देवी भागवत महापुराणे द्वितीयस्कन्धे चतुर्थोऽध्यायः सोवाच प्रतिपेथ दिवं व्यापेषन्त नु सत्यविक्रमः बभूव मृगयाशीलो निघ्नन् व्याघ्रान् नृगं नृप स कदाचिद्वने घोरे गङ्गातीरे चरन् नृप ददर्श मृगशावाक्षीं सुन्दरीं चारुभूषणां दृष्ट्वा तां नृपति मग्न पितृक्तेयं वरानना नृप साक्षात् लक्ष्मीरिवापरा पिबन्मुखाम्बुजं तस्या नृप् न तृप्तिं मृगमन् नृप दृष्टरो मा भवत्तत्र व्याप्तचित्त इवानघ वहाभिषम् सापिमत्वा मत्वा प्रेमयुक्ता बभूवः किञ्चिन् मन्दस्मितम् कृत्वा तथा वग्रेण पश्य च वीक्ष्य तामसि तापाङ्गीम् राजा प्रीतमदाभृशम् उवाच मधुरम् वाक्यम् सान्त्रयन् लक्ष्मणया गिरा देवी वा मोरु मानुषी वा यासी रोहे भार्या मे भवसुन्दरी सुन्दरी दैवतं धर्मपत्नी भवाद्यमे सूतवाच सूत उवाच राजाताम् नाभिजानाति गङ्गेय्यमिति निश्चितम् बहभिषं समुत्पन्नम् नृपम् जानाति राह्नवी पूर्वप्रेम समायोगात् श्रुत्वा वाचं च नारी राजानं स्मितपूर्वमिदम्बच स्त्री उवाच जानामि त्वां नृपश्रे च प्रतिपयतनयम् शुभम् कारवाञ्चति चार्वङ्गी भावित्वा सदृशं पतिं वाग्बन्धेन नृपश्रेश्च वरिष्यामि पतिं किल शृणु मे समयम् राजन् शृणोमि नृपोत्तम यच्च कुर्याम्भयम् कार्यम् शुभम् वा यदि वा शुभम् न निषेध्या त्वया राजन् न वक्तव्यम् तथा प्रियम् यदा च त्वं न करिष्यसि मे च तदा मुक्त्वा गमिष्यामि यथैश्च देशम् मारिश स्मृत्वा जन्मवसूनां सा प्रार्थनापूर्वकम् हृदि महाभिशस्य प्रेमाथ विचिन्त्यैव च जाह्नवी तथेत्युक्ताथ सा देवी चकार नृपतिम् पतिम् एवं वृता नृपेणाथ गङ्गा मानुषरूपिणी नृपस्य मन्दिरम् प्राप्ता सुभारृपतिस्तां समासाद्य चिक्रीडोपवने शुभे सा पीतम् रमया मास भावन्या वै वराङ्गणा न बुबोधे नृपक्रीडन् गतान्वसगणानथ स <Sess> तया मृगशावाख्या शत्यार्यथा स सर्वगुणसम्पन्ना सोऽपि कामविचक्षिणः रे माते मन्दिरे दिव्ये रमा नारायणौ इव ना एवं गच्छति काले सृपते तदा गर्भं गङ्गा स्वसं पुत्रं शुशुभे जातमात्रं सुतं वारि चिक्षे पैवं द्वितीयके तृतीयेऽथ थे, थे पञ्चमे षष्टेव च सप्तमे वाहते पुत्रे राजा चिन्तापरो भवेत् किं करोमि यद्यवंशो मे कथं स्था सुस्थिरो भवि सप्तपुत्रा हता नूनम् अनया पापरूपया निवारयामि यदि मां त्यक्त्वा यास्थिति सर्वथा अष्टमोऽयं सुप्राप्तो गर्भो मे मनसि चित्तमस्थितः न वारयामि चेदद्य सर्वथेयं जलेक्षिपेत् भवितावान् वाचाग्रे संशयोऽयं मम दृत सम्भवेऽपि च दुश्चैयम् रक्षयेद् वा न रक्षयेत् एवं संशयिते कार्ये किं कर्तव्यं मया अधुना मोक्षस्य रक्षणार्थं हि यत्नकार्य परो मया पृथक् काले यदात् पुत्रोऽयम् वसुः मुरीर्येण रुताधेनु नन्दिनी स्त्रीजितेन हि तन्दृष्ट्वा नृपते पुत्रम् ताम्बुवा च पदन्परे दासोऽस्मि तव धन्वङ्गी प्रार्थयामि शुचिस्मिते पुत्रमेकम् पुशाम्यैरम् देहि जीवित मध्य मे हिंसिता सप्त पुत्रा मे कर रक्ष शुश्रोणी पतामि तव पादयो अन्यद्वै प्रार्थितं तेज्य ददाम्यथ च दुर्लभम् वंशो मे रक्षिणी रक्षणी योध्य तया परमशोभने अपुत्रस्य गते नास्ति स्वर्गे वेदविदो विदुः तस्मादद्यवरारोहे प्रार्थयामि अष्टमं सुतम् इत्युक्तापि गृही स्वातम् यदा गन्तुम् समुत्सुकाय तदापि कुपितो राजातामुवाचाति दुःखितः पापिष्ठे किं करोम्यद्य निर्यान्न विभेचिकिम् काचि पापकराणा तं पुत्री पापरता सुधा यथेच्छं गच्छ वा तिष्ठ पुत्रो मे श्रीयतामिह किं करोमि त्वया पापे वंशान्तरयानया एवं वदति भूपाले सा गृत्वा सुतं शुशुं गच्छन्ती वचनं कोप संयुता तं वाचहे पुत्रकामासुतं प्रम् पालयामि वनेगता समयो मे गमिष्यामि वचनम् धन्यथा गंगामाम् गङ्गा मां वैव यानावियानिः वचवस्तु पुरा शप्ता वसिष्ठेन महात्मना पर्यन्तु मानुषीं योनिं स्थितां चिन्ता दृष्ट्वेदम् प्रार्थयामासु जननी नो भवान्न तेभ्यो दत्त्वा वरं जाता पत्नी मेदनुपसत्तमः देवकार्यार्थसिद्ध्यतं जानीहि सम्भवो मम सप्तते वसवपुत्रा मुक्ता शापा दुषेत्ते कियन्तम् कालमेकोऽयं तव पुत्रो भविष्यसि वसुं धेवं सुखं सुतोद्भवम् गङ्गेयोऽभाग्य भविष्यतिवलाधिक अद्य तत्र नमाम्येन यत्र त्वं वै मया वृत सामयौवनप्रातं पालयित्वा महीतले न मातु रहितः पुत्रो जीवन्न न सुखी भवेत् इत्युक्तान्त दधे गङ्गा तं गृहीत्वा बालकम् राजा चातिव दुखाते संसितो निजमन्दिरे भार्या विरहसं दुःखम् तथा पुत्रे स चाद्भुतम् सर्वदा चिन्तयन्नासे राज्यं कुर्वन् मयि पतिः एवं गच्छति काले त नृपति मुगल्यां गतः निजन्दृगणान् वाणी मयि शान् मनोप्राप्त स तदिं स्वकजलाम् दृष्ट्वा विस्मितः स महीपति तत्रापश्य कुवारं तं मुञ्चिखान्धून् आकृष्य च महाचापम् क्रीडन्तम् सरितस्ते तद्वीक्ष्य विस्मितो राजा न जानाति किञ्चन न कुलेभे स्मृतिम्भूप पुत्रोऽयम् मम वा न वा कर्म बाणेषु लघु अस्तताम् विद्यां वा प्रतिमां रूपं तस्य वै स्मरसन्निभम् पप्रच्छ विस्मितो राजा कस्य पुत्रोऽसि चाने नोवाच किञ्चित् वीरोसो मुञ्चच्छीलीमुखानस अन्तर्धानं गतस्वत राजा चिन्ता सुरो भवेत् कोऽयं मम सुतो बाल करोमि व्रजामि किम् गङ्गातुष्टाव भूपाल स्थित तत्र ददर्शम् सा दोचाथ चारुरूपा यथा पुरा दृष्टातां चारु सर्वाङ्गीम् दवाचेन्दृपतिम् स्वयम् कोऽयम् गङ्गे गतो बालो मम तम् दर्शय अधुना गङ्गोवाचे पुत्रोऽयम् तव राजेन्द्र रक्षितश्चाष्टमो वसु ददामि तव ते तु गङ्गेयोऽयम् गंगे मरातपाय कीर्ति कर्ता कुलस्यानुर्भे च शाश्वतं वसिष्ठस्याश्रमे दिव्यस्व सर्वविद्याविधा नज्ञ सर्वार्थ कुशल शुचि यद्भेदजामदग्न्योऽसौ तद्भेदायम् सुतस्व पुराणगच्छ राजेन्द्र सुखी भयव नराधिपय इत्युक्त्वा गङ्गाधत्ता पुत्रं नृपाय वै नृपतिस्तु तदा मुदा युक्तो बहु वाति सुखान्वितये समालिङ्ग्य सुतं राजा समाघ्राय च मत्सकम् पुत्रं स पुरं गत्वा गजाभयं राजा चकारोत्सवोत्तमम् दैवज्ञं च समाहूय पत्रच्छ च शुभं दिनम् समाहृत्य प्रिया सर्वा सचिवान् सर्वशिवान् यवराजे स गाङ्गेयं स्थापयामास पार्थिव कृत्वा तम् युवराजानम् पुत्रं सर्व गुणान्वितम् समास स्वधर्मात्मान सस्मार च जाह्नवीम् श्रुतवाच एतद्दरिणं कथितं सर्वकारणं वसुजापजम् गाङ्गे यस्य तथोत्पत्तिम् जानव्यासम्भवम् तथा गङ्गावयतरणम् पुण्यं वसूनाम् सम्भवम् तथा य शृणोति नरपान्मुच्यते नात्र शोचय पुण्यम् पवित्रमाख्यानम् कथितम् मुनिसत्तमा यथा मया श्रुतं व्यासात् स्वपायन मृकोद्भूतम् पञ्चलक्षणसंयुतम् शृण्वतां सर्वपापघ्नम् शुभदम् सुखदम् तथा इतिहासम् इमं पुण्यम् कीर्तिदं मुनिसत्तमः इति श्रीमद्देवी भागवते मापुराणे तादृशशास्त्र्यां संहितायाम् द्वितीयस्कन्धे देववृतोत्पत्तिवर्णनं नाव चतुर्थोऽध्याय श्रीजगदम्बिकायार्पणमस्तु